अथ एकादशः सर्गः भूय एव हि राजेन्द्रशृणुमेव चलम् हितम् यथा सदेव प्रवरः कथयामास बुद्धिमान् इक्ष्वाकूणान् कुले जातो भविष्यति सुधार्मिकः नाम्ना दशरथो राजा श्रीमान् सत्यप्रतिश्रवः अङ्गराजेन सख्यम् च तस्य राज्ञो भविष्यति कन्या चास्य महाभागा शान्ता नाम भविष्यति पुत्रस्त्वङ्गस्य राज्ञस्तु रोमपाद इति श्रुतः तम् स राजा दशरथो गमिष्यति महायशाः अनपत्योऽस्मि धर्मात्मञ्छान्ता भर्ता मम क्रतुम् आहरे तत्त्वया ज्ञप्तः सन्तानार्थम् कुलस्य च श्रुत्वा राज्ञोऽ तद्वाक्यम् मनसा स प्रदास्यते पुत्रवन्तम् शान्ता भर्तारमात्मवान् प्रतिगृह्य च तम् विप्रम् स राजा विगतज्वरः आहरिष्यति तम् यज्ञम् प्रहृष्टेनान्तरात्मना तम् च राजा दशरथो यशस्कामः कृताञ्जलिः ऋष्यशृङ्गम् द्विजश्रेष्ठम् वरयिष्यति धर्मवित् यज्ञार्थम् च स्वर्गार्थम् च नरेश्वरः लभते च सतम् कामम् द्विजमुख्या पुत्राश्चास्य भविष्यन्ति चत्वारो मितविक्रमाः वंशप्रतिष्ठानकराः सर्वभूतेषु विश्रुताः एवम् स देव कथितवान् कथा सनत्कुमारो भगवान् पुरा प्रभुः स त्वम् पुरुषशार्दूलसमानयसु स्वयमेव महाराज गत्वा सबलवाहनः सुमन्त्रस्य वचः श्रुत्वा हृष्टो दशरथोऽभवत् भवत च सूतवाक्यम् निशाम्य च सान्तः पुरः सहामात्यः प्रययौ यत्र सद्विजः मलानिसरितश्चैव व्यतिक्रम्य शनैः शनैः यत्र वैमुनिपुङ्गवः आसाद्यतम् द्विजश्रेष्ठम् रोमपादसमीपकम् ऋषिपुत्रम् ददर्शाथो दीप्यमानमिवानलम् ततो राजा यथा योग्यम् विशेषतः सखित्वात् तस्य वैराग्यः प्रभृष्टेनान्तरात्मना रोमपादेन चाख्यातमृषिपुत्राय धीमते सख्यम् सम्बन्धकम् चैव तदा तम् एवम् सुसत्कृतस्तेन सहोषित्वा नरर्षभः सप्ताष्ट राजा राजा राजानमिदमब्रवीत् शान्ता तव सुता राजन् सह भर्ता विशाम् पते मदीयम् नगरम् यातु कार्यम् हिमहदुद्यतम् तथेति राजा संश्रुत्य गमनं तस्य धीमतः उवाचवचनम् विप्रम् गच्छ त्वम् सह ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपम् तदा सनृपेणाभ्यनुज्ञातः पयजो सह भार्यया तावन्योऽन्याञ्जलिम् कृत्वा स्नेहात् संश्लिष्यचोरसा नन्ददुर्दशरथो रोमपादश्च वीर्यवान् ततः सुहृदमापृच्छ्य प्रस्थितो रघुनन्दनः पौरेषु प्रेषयामास वै शीघ्रगामिनः क्रियताम् नगरम् सर्वम् क्षिप्रमेव स्वलङ्कृतम् धूपितम् सिद्धसम्मृष्टम् पताकाभिरलङ्कृतम् ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम् तथा चक्रश्च तत्सर्वम् राज्ञा यत्प्रेषितम् तदा ततः स्वलङ्कृतम् राजा नगरम् प्रविवेशः शङ्खदुन्दुभिरेह्रादैः पुरस्कृत्वा द्विजर्षभम् ततः प्रमुदिताः सर्वे दृष्ट्वा वैनागराद्विजम् प्रवेश्यमानम् सत्कृत्य नरेन्द्रेणेन्द्रकर्मणा यथा दिविसुरेन्द्रेण सहस्राक्षेण काश्यपम् अन्तःपुरम् प्रवेश्यैनम् पूजाम् कृत्वा च शास्त्रतः कृतकृत्यम् तदात्मानम् मेनेतस्योपवाहनात् अन्तःपुराणि सर्वाणि शान्ताम् दृष्ट्वा तथा सः भर्त्रा विशालाक्षीम् प्रीत्यानन्दमुपागमन् पूज्यमाना तु तारिः चैव विशेषतः उवासतत्र तत्र सुखिता कञ्चित्कालम् सह द्विजा इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये बालकाण्डे एकादशः